श्रीहरये नमः द्वादशस्कन्धः अथ प्रथमोऽध्यायः राजोरुवाच स्वधामानुगते कृष्णे यदुवंशविभूषणे कस्य वंशो भवत्पृथिव्यां एतदा चश्वमे मुने शीशुक उवाच नाम भाव्यो बार्हद्रतो नृप तस्यामात्यस्तु सुनको हत्वा स्वामिनमात्मजं प्रत्योधसंज्ञं राजानं कर्ता यत्पालकस् सुतः विशाखयोपस्तत्पुत्रो भविता नन्दिवर्धनस्तत्पुत्र पञ्चः प्रद्योतनो इमे अष्टत्रिंशोत्तसरशतं शिशुनागस्तथो भाव्य काकवर्णस्तु तत्सुतः क्षेमधर्मा तस्य सुतः क्षेत्रज्ञक्षेमधर्मजः विधिसार सुतस्तस्य जातशत्रुर्भविष्यति ये दर्भकस्तत्सुतो भावे दर्भकस्याजसं दर्भकस्याजय स्मृतः नन्दिवर्धन आजेयो महानन्दीसुतस्ततः शिशुनाघादसैवैते षट्युत्तरसतत्रयम् समाभोष्यन्ति पृथिवीं कुरु श्रेष्ठकलौ नृपाः महानन्तिसुतो राजन् शूत्रगर्भोद्भवोर्बली महापद्मपतिशकश्चिन्नक्षत्रविशानकृत तथो नृपा भविष्यन्ते शूद्रप्रयास्त्वधार्मिकाः स एकचत्रां पृथिवीम् अनुलङ्कितशासनः महापद्मो द्वितीयैव भार्गवः तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः ययिमां बोष्यन्ति महीं राजानस्मसतं सतं समाह नवनन्दान् द्विज प्रपन्नान् उद्धरिष्यति तेषाम् अभावे जगतिं मौर्या बोष्यन्ति वै कलहौ स एव चत्रगुप्तं वै द्विजोराश्येऽपि तस्सुतो वारिसारस्तो ततश्चाशोकवर्धनः सुयसा भविता तस्य सङ्गतः सुयशः सुतः शालिसुकस्ततस्तस्य सोमशर्मा भविष्यतीं सुतधन्वा ततस्तस्यं भविता तत् बृहद्रतः मौर्यो हे ते सप्तदृशं सच्चतोत्तरं समाभोष्यन्ति पृथिवीं कलौ कुरुकुलोध्वः हत्वा बृहद्ध्रतं तस्य सेनापतिः कलौ पुष्पमित्रस्तु शृंगाह्वं स्वयं राज्यं करिष्यति अग्निमित्रस्ततस्तस्माद् जुष्येष्ठोत तभविष्यति। वसुमित्रो भद्रकश्च पुलिन्दो भविता ततः ततो घोषस्तुतस्तस्मात् वज्रमित्रो भविष्यति ततो भागवतस्तस्मात् देवभूतिरिति श्रुतः सङ्गाधसैते भोष्यन्ते भूमे वर्षसदाधिकं तथः कण्वानियं भूमेर्यास्यति अल्पगुणान् नृप सुंहं हत्वा देव भूतिं कण्वो मात्यस्तु कामिनं स्वयं करिष्यते राज्यं वसुधो भो महामतिः तस्य पुत्रस्तु भो मित्रस्तस्य नारायणस्सुतः नारायणस्य भविता सुशर्मा नाम विश्रुतः काण्वायनायिमे भूमिं चत्वारिम् सच्च पञ्च च स तानि त्रीणि भोष्यन्ति वर्षाणां च खलौ युगे हत्वा काण्वं सुसर्माणं तद्भृत्यो वृषलो बली गाम्बोषत्यन्द्रजातीय कञ्चित्कालम् असत्तमः कृष्णनामाध तत् भ्राता भविता पृथिवीपतिः श्रीशान्तकर्णस्तत्पुत्र पौर्णमासस्तु तत्सुतः लम्भोदरस्तु तत्पुत्रस्तस्माचिबिलको नृपः मेघस्वातिश्चिबिलाक अडमानस्तु च अनिष्टकर्मा कालेयस्तलकस्तस्य पुरीशभीरुतस्पुत्रस्तदो राजा सुनन्दनः चकारो भगवो यत्र शिवस्वातिररिन्दमः तस्याभि गोमति पुत्रः पुरीमान् भविता ततः मेदशिरो शिवस्कन्धो यज्ञश्रीस्तत्सुतस्ततः विजस्तत्सुतो भाव्यश्चन्द्रविज्ञस्तोमधिः एते त्रिंशन् नृपतयश्चत्वारि ध् सदानि च षट्पञ्चाशच्च पृथिवे भोष्यन्ति कुरुनन्दन सप्त वीर आवभ्रत्या दशकर्दे नृपाः गङ्गा षोटस भूपाला ततोष्टौ यवनाभाव्याश्चतुर्दशतुरुष्ककाः भूयो दश गुरुण्डा च मौना एगातसैव एते बोष्यन्ति पृथिवीं दशवर्षसन्तानि च नवाधिकां च नवतीं मौना एकादशक्षितिं त्रीणीतैः संस्थिते ततः किल किलायाम्रपतयो किला भूतनं धोतवङ्गिरिहे शिशूनन्दिश्च तद्भ्राता यशोनन्तिप्रवीरकः इत्येते वै वर्षसतं भविष्यन्त्ययधिकानिषड् तेषां त्रयोदश सुधा भवितारच्च पुष्पमित्रोतराजन्यो जन्यो दुर्मित्रोऽस्य एककाले इमे भूमा सप्तान्ध्राः सप्तकोशलाः विदूरपतयो भाव्यां निषदास्तत एव हीं मागधानां तु भविता विश्वस्फूजिः पुलिन्धयतु मद्रकान् प्रजाश्चाब्रह्मभूयिष्ठान् स्थापयिष्यति दुर्मतिः वीर्यां क्षत्रमुत्साध्या पद्मवत्यां सवै अनुगंगां अनुगङ्गाम् आप्रयागं गुप्ताम्बोष्यति मेदिनीं सौराष्ट्रावन्द्या व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनादिबा सिन्धोस्तटं चन्द्रभागां कौन्त्यं काश्मीरमण्डलं बोष्यन्ति शूद्राव्रात्यात्मा म् ब्रह्मवर्चसः तुल्यकलायि मे राजन्म्ले च प्रायाश्च भूभृतः एते धर्मान्ध्रतपराहं पल्गुधास्तीव्रमन्यवः श्रीबालगोद्विजग्नाश्च भरधारधनादृताः उदितास्तमितप्राय अल्पसत्त्वाल्पकायुषः असंस्कृता क्रियाहीनां रजसा तमसा वृताः प्रजास्ते भषयिष्यन्ते तन्नादास्ते जनपदास्तच्छीलाचारवादिनः अन्योन्यतो राजभिश्च क्षयं यास्यन्ति पीडिताः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्दे प्रथमोऽध्यायः सर्वत्र गोपिकाजीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमगराजकी च